अथ षट्चत्वारिंशदधिकशततमोऽध्यायः वैशम्पायन उवाच विदुरस्य सुहृत्कश्चेत् खनकः कुशलो विवित्ते पाण्डवान् चनमब्रवीत् प्रहितो विदुरेणास्मि खनकः कुशलो ह्यहम् पाण्डवानाम् प्रियम् कार्यम् इति किम् करवाणि वः प्रच्छन्नम् विदुरेणोक्तः श्रेयस्त्वमिति पाण्डवान् प्रतिपादय विश्वासादिति किम् करवाणि कृष्णपक्षे चतुर्दश्याम् रात्रावस्यां पुरोचनः भवनस्य तव द्वारि प्रदास्यति हुताशनम् मात्रा सह प्रदग्धव्याः इति व्यवसितं तस्य धातराष्ट्रस्य दुर्मतेहे किञ्चिच्च विदुरेणोक्तो म् म्लेच्छवाचासि पाण्डवा त्वया च तत्तथेत्युक्तम् एतद्विश्वासकारणम् उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः अभिजानामि सौम्य शुचिमाप्तं प्रियं चैवा सदा च दृढभक्तिकम् न विद्यते कवेः किञ्चित् अविज्ञातं प्रयोजनम् यथा तस्य तथा नस्त्वम् निर्विशेषावयम् त्वयि भवतश्च यथा तस्य पालयास्मान्यथा कविः इदं शरणमग्नेयम् मदर्थमिति मे मतिः पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात। स पापः कोशवांश्चैव ससहायश्च दुर्मतिः अस्मानपि च पापात्मा नित्यकालं प्रबाधते सभवान् भवान् मोक्षयत्वस्मान् यत्नेनास्माद्हुताशनात् अस्मास्वि हि दग्धेषु स कामः स्यात् सुयोधनः तस्य दुरात्मनः वप्रान्तम् निष्प्रतीकारम् आश्रित्येदम् कृतम्